संहितापाठम् भगप्रणयतर्भगसत्यराधो भगे मान् धियमुदवा दददन्न भगप्रणो जनय गोभिरश्वय्यर्भगप्रनृभिर्नृवन्तः स्याम भगप्रणेतर्भगसत्यराधो भगे मान् धियमुदवा ददन्न भग प्रणो जनय गोभिरश्वयर्भगप्रनृभिर्नृवन्दः स्याम भगप्रणेतर्भगसत्यराधो भगे मान्धियमुदवा दददन्न भगप्रणो जनय